अथ चतुष्पञ्चाशदधिकशततमोऽध्यायः वैशम्पायन उवाच सा तानेवापतत्पूर्णं भगिनी तस्य रक्षसः अब्रुवाणा हिडिम्बातु राक्षसी पाण्डवान् प्रति अभिवाद्य ततः कुन्तीं धर्मराजं च पाण्डवम् अभिपूज्य च तान् सर्वान् भीमसे नमभाषता हिडिम्बोवाच अहं ते दर्शनादेव मन्मथस्य वशं गता क्रूरं भ्रातृवचो हित्वा राक्षसे रौद्रसङ्काशे तवा विचेष्टितं विचेष्टितम् अहं शुश्रूषुरिच्छेयं तव गात्रं भीमसेन उवाच स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीं त्वमिमं भ्रात्रसेवितं युधिष्ठिर उवाच वृद्धोऽपि पुरुषव्याघ्रा भीममास्म श्रियं वधीः धर्मं गोपाय पाण्डवा वधाभिप्रायमायान्तं अवधिस्त्वम् महाबलं रक्षसस्तस्य भगिनी किं क्रुद्धा करिष्यति वैशम्पायन उवाच हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः युधिष्ठिरं तु कौन्तेयम् इदं वचनमब्रवीत् आर्ये जानासि यद्दुःखम् इह स्त्रीणामनङ्गजं तदिदं मामनुप्राप्तं भीमसेन शुभे सोढं तत्परमं दुःखं मया कालप्रतीक्षया सोऽयमभ्यागतः कालो भविता सुखोदयः